गरुडपुराणम् आचारकाण्डम् अध्यायम् 90. मार्कण्डेय उवाच ततस्तस्मान्नदीमध्यात्समुत्थौ मनोरमा प्रम्लौ च नाम तन्वङ्गी तत्समीपे वराप्सराः सा चोवाच महात्मानं रुचिं सुमधुराक्षरं प्रसादयामासभूय प्रम्लोचा च वराप्सराः अतीवरूपिणी कन्या मत्प्रसादाद्वराङ्गना जादावरुणपुत्रेण पुष्करेण महात्मना तां गृहाणमया दत्तां भार्यार्थे वरवर्णिनीं मनुर्महामदिस्तस्यां समुत्पत्स्यति ते सुतः मार्कण्डेय उवाच तथेदि तेन साप्युक्ता तस्मात् तोयाद्वपुष्मदीम् उद्धधारतथकन्यां मानिनीं नामनामदः नद्याश्च पुलिने तस्मिन् समुनिर्मुनिसत्तमः जग्राहपाणिंविधिवत्समानीय महामुनिः तस्यां तस्य सुतो महावीर्यो महाद्युतिः रुचेरौच्य रौच्य इदिख्यादो यो मया पूर्वमीरिदः इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डे प्रम्लोचागमनम् नाम नवतितमोऽध्यायः ओम् अध्यायम् 91 सूत उवाच स्वायम्भुवाद्यामुनयो हरिम् ध्यायन्ति कर्मणा व्रताचारार्चनाध्यानस्तुदि जप्यपरायणाः देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् आकाशेन विहीनम् वै तेजः सा परिवर्जितम् उतकेन विहीनम् वै तद्धर्मपरिवर्जितम् पृथिवीरहितम् चैव सर्वभूतविवर्जितम् भूताध्यक्षम् तथा बद्धनियन्तारं प्रभुं विभुं चैतन्यरूपतारूपं सर्वाध्यक्षं निरञ्जनं मुक्तसङ्गं महेशानं सर्वदेवप्रपूजितं तेजोरूपमसत्त्वं च तपसा परिवर्जितं रहितं रजसा नित्यं व्यतिरिक्तं गुणैस्त्रिभिः सर्वरूपविहीनं वै कर्तृत्वादिविवर्जितं वास्तनारहितं शुद्धं सर्वदोषविनार् सर्वदोषविवर्जितं पिपासावर्जितं तत्तच्छो पा मोहविवर्जितम् जरामरणहीनं वै कूटस्थमोहवर्जितम् उत्पत्तिरहितं चैव प्रलयेन विवर्जितम् सत्यं सर्वाचारहीनं निष्कलम् परमेश्वरम् जाग्रत्स्वप्नसुषुप्त्यादिवर्जितम् नामवर्जितम् अध्यक्षम् जाग्रदादीनां शान्तरूपम् सुरेश्वरम् जाग्रदाधिष्ठितम् नित्यम् कार्यकारणवर्जितम् सर्वदृष्टं तथामूर्तं सूक्ष्मं सूक्ष्मतरं परं ज्ञानदृक्श्रोत्र विज्ञानं परमानन्दरूपकं विश्वेन रहितं तद्वत्तैजसेन विवर्जितं प्राज्ञेन रहितं चैव तुरीयं परमाक्षरं सर्वगोतृ सर्वहन्दृ सर्वभूतात्मरुचिपि सर्वभूतात्मजूपि च रूपि च बुद्धिधर्मविहीनम् वैनिराधारम् शिवम् हरिम् विक्रियारहितम् चैव वेदान्तैर्वेद्यमेव वेदरूपं वेदरूपम् परम् भूतमिन्द्रियेभ्यः परम् शुभम् शब्देन वर्जितम् चैव रसेन च रूपेण रहितम् चैव गन्धेन परिवर्जितम् अनादिब्रह्म रन्धान्तमहम् ब्रह्मास्मि केवलम् एवम् ज्ञात्वा महादेवध्यानम् कुर्याजितेन्द्रियः ध्यानम् ह्य कुरु देह्येवम् स भवेद् ब्रह्म मानवः यदि ध्यानम् समाख्यातमश्विरस्य मया तव अधुना कथयाम्यन्यत्यन्तद्ब्रूहि वृषध्वज इति श्रीगारूडे महापुराणे आचारकाण्डे हरिध्यानम् नामैकनवतितमोऽध्यायः ओम् अध्यायम् नैन्टि टु रुद्र उवाच विष्णोध्यानम् पुनर्ब्रूहि शङ्खचक्रगदाधर येन विज्ञातमात्रेण कृतकृत्यो भवेन्नरः हरिरुवाच प्रवक्ष्यामि हरेर्ध्यानम् मायातन्त्रविमर्दक मूर्तमूर्तादिभेदेन तद्ध्यानं द्विविधं वहर अमूर्तम् रुद्रकथितं हन्तमूर्तं ब्रवीम्यासं सूर्यकोडिप्रतिकाशोजिष्णुर्धाजिष्णुरेकतः कुन्दगोक्षीरधवलोहरिर्भ्येयो मुमुक्षुभिः विशालेन सुसौम्येन शङ्खेन च समन्वितः सहस्रादित्यतुल्येन ज्वालामालोग्ररूपिणा चक्रेण च अन्वित शान्दो गदा हस्तः शुभाननः किरीटेन महार्घेण रत्नप्रज्वलितेन च सायुधसर्वगोदेवः सरोरुपधरस्तथा वनमालाधरशुभ्रः समांसो हेमभूषणः सुवस्त्रशुद्धदेहश्च सुकर्णपद्मसंस्थितः हिरन्मयशरीरश्च चारुहारीशुभाङ्गदः हेयूरेण समायुक्तो वनमाला, समा वनमाला समन्वितः श्रीवत्सकौस्तुभयुदो लक्ष्मी वन्द्ये क्षणान्वितः अणिमादिगुणयुर्योक्तसृष्टि संहारकारकः मुनिध्येयो सुरध्येयो देवध्येयोदिसुन्दर ब्रह्मादिस्तम्भपर्यन्तभूतजादहृदि स्थितः सनातनोऽव्ययो मेध्यसर्वानुग्रहकृत् प्रभुः नारायणो महादेवस्पुरन्मकरकुण्डलः सन्तापनाशनोऽभ्यर्थ्यो मंगल्यो दुष्टनाशनः सर्वात्मा सर्वरूपश्च सर्वगोग्रहनाशनः चार्वाङ्गुलीयसंयुक्तसुदीप्तनक एव च शरण्यसुखकरी च सौम्यरूपो महेश्वरः सर्वालङ्कारसंयुक्तश्चारुचन्दनचर्चितः सर्वदेवसमायुक्त सर्वदेवप्रियङ्करः सर्वलोकहितैषीज सर्वेश सर्वभावनः आदित्यमण्डले संस्थो अग्निस्थो वारिसंस्थितः वसुदेवो वा जगद्धादाध्ययो विष्णुर्मुमुक्षुभिः पासु देवोऽहमस्मीति आत्मा ध्येयो हरिर्हरिः ध्यायन्त्येवं च ये विष्णुं ते यान्ति परमां गतिं याज्ञवल्क्यपुराह्येवं ध्यात्वा विष्णुं सुरेश्वरं धर्मोपदेशकर्तृत्वं सम्प्राप्याघात्परं पदं तस्मात् त्वमपि देवेश विष्णुं चिन्तय शङ्कर विष्णुध्यानम् पठेद्यस्तु प्राप्नोति परमाङ्गतिम् इति श्रीगारूडे महापुराणे आचारकाण्डे विष्णुध्यानम् नाम द्विनवतितमोऽध्यायः ओम् अध्यायम् 93 महेश्वर उवाच याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तम् कथम् हरे तन्मेथय शिघ्न ये न माधव हरिवाच याज्ञवल्यं नमस्कृत्य मिथिलायां सद् अपृछन्ृष्वा वर्ण धर्माशेषद तेभ्य स कथयाम स विष्णु ध्या जिदेन्द्रियवल्य यस्मिन् देशे मृगकृष्णस्तस्मिन् धर्मान्निबोधत पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः वेदास्थानानि विद्यानां धर्मस्य च चतुर्दश वक्तारो धर्मशास्त्राणां मनुर्विष्णुर्यमोङ्गिराः वसिष्ठदक्षसंवर्त तपराशराः आपस्तम्भो शनो व्यासा कात्यायन बृहस्पदी गौतमः शङ्खलिखितो हारितोऽत्रिरहम् तथा यदे विष्णुम् समाराध्य जादा धर्मोपदेश देशकाल उपायेन द्रव्यं श्रद्धासमन्वितं पात्रे प्रदीयदे यत्तत्सकलं सकलं धर्मलक्षणं हिंसादानं स्वाध्यायकर्म च अयं च परमो धर्मो यद्योगेनात्मदर्शनं वेद वेदधर्मज्ञाः पराश्रैविद्यमेव वा सा ब्रूदे यत्स्वधर्मस्यादेहो वाध्यात्म वित्तमः ब्रह्मक्षास्त्रियविक्षूद्रावर्णास्त्वद्यास्त्रयो द्विजाः निषेकाद्य स्म शानान्दास्तेषां वै मन्द्रदक्रियाः गर्भाधानमृदौ पुंसः सवनम् स्पन्दनात्पुरा मेवासीमन्तप्रसवे जातकर्म च अखन्येकादशे नाम चतुर्थे मासि निष्क्रमः षष्ठेन्न प्राशनम् मासि चूडाङ्गुल्याद्यधाकुलम् एवमेन श्रमम् व्याधिबीज गर्भ समुद्भवम् तूष्णी मेधाम् क्रियास्त्रीणाम् विवाहश्च समन्द्रकः इति श्रीगारूडे महापुराणे आचारकाण्डे याज्ञवल्क्योक्तवर्ण धर्म निरूपणम् नाम त्रिनवदितमोऽध्यायः ओम् अध्यायम् नैन्टिफोर् याज्ञवल्क्य उवाच गर्भाष्टमेष्टमे वाब्दे ब्राह्मणस्योपनायनम् रत्न्यामेकादशे सैके विषमेके यथा कुलम् उपनीयकुरुशिष्यम् महाव्याहृतिपूर्वकम् वेदमध्यापयेदेनम् शौचाचारांश्च शिक्षयेद दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः कुल्यान्मूत्रपुरीषेतु रात्रौ चेद्दक्षिणा मुखः गृहेद शिश्रश्चोद्धाय मृद्भिरभ्युद्धृतैर्जलैः गन्तले पक्षयकरम् शौचम् कुर्यान् महाव्रदः अन्तर्जान् शुचौ देश उपविष्ट उदङ्मुखः प्राग्वाब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेड कनिष्ठा देशिन्यङ्गुष्टमूलान्यग्रङ्करस्य च प्रजापतिपिदुर्ब्रह्म देवतीर्थान्यनुक्रमाद त्रिप्राश्यापो द्विरु द्विरुन्मृज्य कान्याद्भिः अद्भिस्तु प्रकृदिस्ताभिर्होनाभिस्फेन बुद्धैः हृत्कण्डतालुनाभिस्तु यथा सख्यम् द्विजादयः शुद्धेरंश्री च शूद्रश्च सकृस्पृष्ठाभिरन्ततः स्नानमब्दैवतैर्मन्द्रैर्मार्जनम् प्राणसंयमः सूर्यस्य चाप्युपस्थानम् गायत्रय्याप्रत्ययम् जपः गायत्रीं शिरसा सार्धम् जपेद्वाहृदि जपेद्व्याहृदिपूर्विकम् प्रदिप्रणवसंयुक्ताम् त्रिरयम् प्राणः संयमः प्राणानायम्य सं प्रोक्ष्य त्रियर्चेना दैवतेन तु उपन्यासीद सावित्रीं प्रत्यगातारकोदयद दा सन्ध्यां प्राक् प्रातरेवं हि तिष्ठे दासूर्यदर्शनाद दा अग्निकार्यं तद दा दा कुर्यात् सन्ध्ययोरुभयोरपि ततोऽभिवादयेद्वृद्धुवान् सावहमिति ब्रुवन् गुरुं चैवाप्युपासेदस्वाध्यायार्थं समाहिदः साहूतश्चाप्यधीयेत सर्वं चास्मै निवेदयत हितं तस्याचरे नित्यं मनोवाक्तायकर्मभिः दण्डाञ्जिनोपवीतानि मेखलां चैव धारयेद ब्राह्मणेषु चरेद्धैक्ष धा मनिन्द्येष्वात्मवृत्तये आदिमध्यावसानेषु भवेच्छन्दोपलक्षिदा ब्राह्मणक्षत्रियविश्याम् वैक्षचर्या यथा क्रमम् कृताग्निकार्यो भुञ्जीदविनिदो गुर्वनुज्ञया आपोषानक्रियापूर्वं सत्कृत्या मकुत्सह्यन् ब्रह्मचर्यास्तिदो नैकमन्नमध्यादनापदि ब्राह्मणकाममश्रीयाश्रादे व्रतमपीडयन् मधु मांसम् तथा स्विन्नमित्यादिपरिवर्जयेद् स गुरुर्यक्रिया कृत्वा वेदमस्मै प्रयच्छति ये कदेशमुपाध्याय ऋत्वि यज्ञ हृदुच्यते ये ते मान्या यथा पूर्वमेभ्यो मादागरीयसी द्वादशाब्दानि पञ्च वा गृहणान्तिकमित्येके केषान्तश्चैव आषोडशा द्वाविंशाच्चतुर्विंशाच्च वत्सराद ब्रह्मक्षत्रविशम् काल औपनायनि कप्परः अदवूर्ध्वम् पतन्त्येते सर्वधर्मविवर्जिताः सावित्रीपदिता व्रात्या व्रात्य स्तो मा धृते क्रदोः मा धुर्यदग्रे द्वितीयम् मौञ्जिबन्धनम् ब्राह्मणक्षत्रियविश्वस्तस्मादे द्विजातयः यज्ञानां तपसाम् चैव शुभानां चैव कर्मणाम् वेद एव द्विजादीनां निःश्रेयसकरः परः मधुनापयस चैव स देवांस्तर्पये द्विजः पितृन्मधुकृताभ्याम् च रुचोधिदेहि सोऽन्वहम् यजुसामपठेद्वद्धर्वाङ्गिरः सन्द्विजः सन्दर्पयेत्पितृन् देवान् सोऽन्वहम् हि कृदा वाक्यो वाक्यम् पुराणम् च नाराशंसीश्च गाधिकाः इतिहा सांस्तथा विद्यायोधी देशकृतोऽन्वहम् सन्दर्पयेत्पितृन्देवान्मांसक्षीरोधनादिभिः ते तृप्तास्तर्पयन्त्येनम् सर्वकामफलैः शुभैः यम् यम् भूमिदानस्य तपःस स्वाध्यायफलभाग्द्विजः नेष्ठिको ब्रह्मचारी दु वसेदाचार्यसन्निधौ तदभावेश्यतनये पत्न्यां वैश्वानरेऽपि वा साधये द्विजितेन्द्रियः ब्रह्मलोकमवाप्नोति न चेह जायते पुनः महापुराणे आचारकांडे याज्ञवल्योक्तवर्णधर्मूं नाम चवतितमोध्याक्य उच शृण्वंधु मुनो धर्मास्थव्रता गुरवे च धनम् दत्त्वा स्नात्वा च तदनुज्ञया समापितब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेद अनन्यपूर्विकाम् कान्तामस पिण्डाम् यवीयसीम् अरोगिणीम् भ्रातृमदीमसमानार्षगोत्रजाम् पञ्च मासप्तमादूर्ध्वम् माद्र मातृतः पितृतस्तथा दश पुरुषविख्याताश्रोत्रियाणां महाकुलाद सवर्णश्रोत्रियो विद्वान्वरो दोषान्वितो न च यदुच्यते द्विजादीनां शूद्राद्दारोपसङ्ग्रहः न तन्ममदं यस्मात् तत्रायम जायते स्वयम् तिस्रो वर्णानुकूर्व्येण द्वे तथैका यथा क्रमम् ब्राह्मणक्षत्रियविषम्भार्या स्वाशूद्रजन्मनः ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता तथ पुनात्युपयध पुरुषोऽनेकविंशतिम् यज्ञस्ताजे दशस्तुयुगम चुर्दश प्रथम धर्मं सह या दीयेने सका शान्नात्मना सख आसुरोद्रवीणादा गांधर्वसमो युद्धभरणा पैसा चाचलाह साधर्वराक्षसौ राजथा वैश्ये शूद्रे चांद्यस्ु गर्द पाग्राह्य गृह्णीदक्षत्रिया शरं वैश्याप्रदोद मादध्यद्वेदनेचाग्रजन्मनः पिता पिता महोभ्राता सकुल्यो जननी तथा कन्याप्रदपूर्वनाशे प्रकृतिस्थ परः परः अप्रयच्छन् समाप्नो दिभ्रूणहत्यामृतावु मृतावृतौ येषामभावे धादृणां कन्या कुर्या स्वयं वरं सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक अदुष्टां चित्यजन्द्य सुदुष्टां तु परित्यजेत अपुत्री गुर्वनुज्ञातो देवरपुत्रकन्यगा सपिण्डो वा समोत्रो वा कृदभ्यकृदरुदाद आगर्भसम्भवं गच्छत् पतितस्त्वन्यथा भवेद अनेन विधिना जातक्षेत्रपश्य भवेत् सुदः कृताधिकारां मलिनां पिण्डमात्रोपसेविनीं परिभूतामधशय्याम् सयेद्व्यभिचारिणी सोमशौचम् ददौ तासां गन्धर्वश्च शुभाङ्गिरम् पावकः सर्वमेध्यत्वम् मिध्या वयोषितो यतः व्यभिचारादृतौ शुद्धिर्गर्भेत्यागम् करोति च गर्भभर्तृवधे तासां तथा महतिपादके सुरापी सुरापि व्याधिदद्वेष्ट्री वन्द्यार्थन्यप्रियंवदा अधिभिन्ना च भर्तव्या महदेनोऽन्यथा भवेद यथा विरोधो दम्पत्योऽस्त्रिवर्गस्तत्र वर्धते मृदे जीवदियापत्यौ या नान्यमुपगच्छति शेककीर्तिमवाप्नो विमोददे चोमया सह शुद्धां त्यजं स्त्रिदीयांशम् दद्यादामरणं स्त्रियाः स्त्रीभिर्भर्तुर्वजकार्यमेष धर्मः परस्त्रियाः षोडशर्तुनिशास्त्रीणाम् तासु युग्मासु संविषेद ब्रह्मचारी च पर्वाण्याद्यास्ततस्तत्तु ततस्त्रस्तु वर्जयेद एवं गच्छं स्त्रियं क्षामां मखामूलां च वर्जयेद लक्षण्यं जनयेदेव पुत्रं रोगविवर्जितं यथा कामी भवेद्वापि स्त्रीणां स्वदारनिरतस्तैव स्त्रियो रक्ष्याय दस्ततः भर्तृभ्रातृ पिदृज्ञादिश्वरदेवरैः शु। बन्धुभिष्टस्त्रियपूज्याभूषणाच्छादनाशनैः संव्यदोपस्कर दक्षा हृष्टाव्ययपराङ्मुखी श्वश्रु श्वशुरयो कुर्यात् पादयोर्वन्दनं तदा क्रीडा शरीरसंस्कार समाजोत्सवदर्शनम् अस्यम्बरगृहे यानं त्यजेत् प्रेषितभर्दृत रक्षेत् कन्यां पिता बाल्ये यौवने पदिरेवतां वार्धक्ये रक्षदे पुत्रो ह्यन्यथा जातयस्तथा ये ये पदीं विना न तिष्ठे तु दिवा वा यदि वा निशि ज्येष्ठां धर्मविधौ कुर्यान्न कनिष्ठां कदाचन दाह येदग्निहोत्रेण स्त्रियं वृत्तपदीं पदिः आहारे द्विधिवद्दारानग्निं चैव विलम्बितः इदा भर्तुर्दिवं गच्छे कीर्तिरवाप्य च इति श्रीगारूडे महापुराणे पूर्वखण्डे आचारकाण्डे यज्ञाज्ञवल्क्योक्तगृहर्थधर्मनिर्णयो नाम पञ्चनवतितमोऽध्यायः ओ अध्यायम् 96 याज्ञवल्क्यो वाच्ये सङ्करजात्यादिगृहस्थादिविधिम् परम् विप्रान्मूर्ध्वा वशिक्तो हिक्षत्रियायाम् विशस्त्रियाम् जादोम् पष्ठस्तु शूद्रायाम् निषाधपर्वतो विवा मा शिष्यः क्षत्रिया जादो वैश्यायाम् म्लेच्छ सञ्ज्ञतः शूद्रायाम् करणो वैश्याद्विन्ना स्वेषविधिस्मृदः ब्राह्मण्याम् क्षत्रिया सूदो वैश्याद्वैदेशकस्तथा शूद्रा जातस्तु चण्डालसर्ववर्णविगर्हितः क्षत्रियामागधम् वैश्या चूद्राक्षवमेव च शूद्रादयोगवम् वैश्याजनयामास वैसुदम् माहिष्येण करण्याम् दुरधकारप्रजायते असत्सन्तस्तु वैज्ञेया प्रदिलोमानुलोमजाः जात्युत्कर्षाद्विजोज्ञेयत्सप्तमे पञ्चमेऽपि वा व्यत्यये कर्मणाम् साम्यम् पूर्ववच्चोत्तरावरम् कर्मस्मार्थम् विवाहाग्नौ कुर्वीद प्रत्यहम् गृही दायकालाधृदेवाभिश्रौदम् वैदानिकाग्निषु शरीरचिन्ताम् निर्वर्त्य कृतशौच विधिर्द्विजः प्रातःसन्ध्यामुपासीदन्तधावनपूर्वकम् उत्वाग्नौ सूर्यदेवत्यान् जपेन्मन्त्रान् समाहितः वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च योगक्षेमादिसिद्ध्यर्थमुपेयाधीश्वरम् गृही स्नात्वा देवान् पितृंश्चैव तर्पये दर्शयेत् तथा वेदानध वेदानपुराणा सेतिहासा शक्रिद जपयज्ञाशुम विद्या चाध्यात्मकी जपेद बलिकर्मस्वता होमस्वाध्यायाधि सक्रिया भूतपत्रह्म महामखा दुदं चाग्नौिपे भूतबलि अन्नं भूम्मौश्वलवायसेभ्यश्च निःक्षिपेद अन्नं पितृमनुष्येभ्यो देयमप्यन्वकं जलं पच्चे स्वाध्यायमन्वकं कुर्यान्नपच्चेच्छान्नमात्मने बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः सम्भोज्यातिथिभृत्यांश्च दम्पत्यो शेषभोजनं प्राणाग्निहोत्रविधिना श्रीया दन्नमकुत्सयन् मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम् आपोशानेनोपरिष्टा दधस्ता चैव भुज्यदे अनग्नमृतं चैव कुकार्यमन्नं द्विजन्मना अदितिभ्यस्तु वर्णेभ्यो देयम् चक्रियानुकूर्वशः अप्रणोद्योतिथिसायमपि नात्र विचारणा सत्कृत्यभिक्षवे भिक्षा दादव्या सुव्रदाय च आतदान् भोजयेत् सर्वान् मोहोक्षम् श्रोत्रियाय च प्रतिसंवत्सरम् त्वर्च्या स्नादकाचार्य प्रियो विहाश्च प्रियो विवाह्यश्च तथा यज्ञं प्रत्यर्त्विजः पुनः अध्वनिनो तिथिप्रोक्तश्रोत्रियो वेदपारगः मान्या वेदौ गृहस्थस्य ब्रह्मलोकमभीप्सदः परपाकरुचिर्णस्यादनिन्द्या मन्त्रणादृदे वाक्पाणिपादचाबल्यम् वर्जय चादि भोजनम् श्रोत्रियम् वातिथिम् तृप्त मासी मान्तादनुव्रजेद अहशर्षम् सहासीदशिष्टैरिष्टैश्च बन्धुभिः उपास्य पश्चिमाम् सन्ध्याम् भूत्वाग्नौ भोजनम् तदः पुल्याद्भृत्यै समायुक्तैश्चिन्तयेदात्मनो ब्राह्मे मुहूर्ते चोद्धायमान्यो विप्रो धनादिभिः वृद्धार्तानां समाधेयपन्था वैभारवाहिनाम् इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च प्रतिग्रहोऽधिको विप्रेयाजनाध्यापने तथा प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् कुसीदकृषिवाणिज्यम् वा शुबाल्यं विष स्मृतं शूद्रस्य द्विज शुश्रूषा द्विजो यज्ञान्यहाभयेद अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम् आचरेत् सदृशीं वृत्तिमजिह्मामषढां तथा र्षिकाधिकान्नो यः सोमम् पातुमर्हति स्यादन्नम् वार्षिकम् यस्य कुर्यात् प्राक् सौमिकीम् क्रियाम् प्रतिसंवत्सरम् सोमः पश्युप्रत्ययनम् तथा वर्तव्याग्रहणेष्ठिश्च चादुर्मास्यानि येषा ये मसम्भवे कुर्यादिष्टिम् वैश्वानरीं द्विजः हि न कल्पं न कुर्वोत सदि द्रव्ये फलप्रदं चण्डालो जायते यत्नकरणाच्चूद्रभिक्षिताद यत्नार्थलब्धं नादद्याद्भास काकोऽपि वा भवेद कुसूदकुम्भीधान्यो श्वस्तनोऽपि वा जीवेद्वापि शिलोञ्चे न श्रेयानेषाम् परम्परः न स्वाध्यायविरोध्यार्थमीहतेन यतस्ततः राजान्ते वासि याजेभ्यी धन्निच्छे धन्नम् क्षुधा दम्भहैतुकपाशाण्डि भगवृत्तिंश्च वर्जयेत् शुक्लाम्बरधरो नीचकेशश्मश्रुनखश्रुचिः न भार्यादर्शने श्रीयान् नैकवासानसंस्थितः अप्रियं न वदे जादुब्रह्मसूत्री विनीतवान् देवप्रदक्षिणाङ्गुर्याष्टिमान् सकमण्डलुः न तु मेहान्नदीछाया भस्मगोष्ठाम्बुवर्त्मसु न गोसोमा संध्यां भुस्त्री द्विजन्मनां नेक्षेताग्न्यर्कनाग्नां स्त्रीं न च संसृष्टमैथुनं न च मूत्रम्भुरीर्षं वा स्वपेत्प्रत्यकूशिरा न च ष्ठी वना सृक्ष कृन्मोत्र विषाण्यप्सु न संक्षिपेत् पादौ प्रतापयेन्नग्नौ न चैनमभिलङ्घयेत् पिबेन्नाञ्जलिना तोयं न शयानं प्रबोधयेद नाक्षायि क्रीडे चकितवैर्व्याधितैश्च न संविशेद विरुद्धम् वर्जयेत् कमप्रेदधूमम् नदीतडम् केशभस्मतु शाङ्गारकपालेषु च संस्थितम् नाच क्षीदधयन्तीङ्गान्नाद्वारेणाविशेत् ना क्वचिद न राज्ञप्रति गृह्णाय ्रवणेन व हस्तेन ऊषधि भाव वा पंचमियावण से चौषमस रोहिणिया जला छंदसा कुरुदुत्सर्गम विधिवनध्या कंपे शिष्य गुरबंधुषु उपकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये मृते सन्ध्यागर्जितनिर्घादभूकम्बोल्का निपातने समाप्य वेदं त्वनिशमारण्यकमधीत्यज पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ऋदुसन्दिशु भुक्त्वा वा श्राद्धिकम् प्रतिगृह्य पशु मण्डूकनकुलश्वाहि मार्जारसूकरैः कृतेन्दरे त्वहोरात्रं शुक्रपादे तदोश्रये श्वक्रोष्टो गर्दभोलूकसामबाणार्थनिस्वने अमेद्य शवशूद्रान्त्यश्मा शनपदितान्तिके देशेषु चावात्मनि च विद्युस्तनितः सम्प्लवे भुक्त्वार्द्रपाणिरम्भोऽन्तरार्धरात्रेदिमारुदे दिग्दाहे पांशुवर्षेषु सन्ध्यानीहारभीदिषु धावदपूजिगन्धे च शिष्टे च गृहमागदे करोष्ट्रयान हस्त्यश्व नौ वृक्षगिरिरोकणे सप्तत्रिंशदनध्यायानेदांस्तात्कालिकान्विदुः वेददिष्टम् तथा च यम्भ्राजच्छायाम् परस्त्रियम् नाक्रो मे द्रकृविन्मोक्रष्ठिवनोद्वर्तनानि च विप्राहि क्षत्रियात्मानो नावज्ञेया कदाचन दूरादुच्छिष्टविन्मूत्र पादाम्भासि समुत्सृजेद श्रुति स्मृत्युक्तमाचारम् कुर्यान्मर्मणि न स्पृशेद न निन्दा ताडने कुर्यात् सुखं शिष्यं च ताडयेद आचरेत् सर्वदा धर्मं तद्विरुद्धं तु नाचरेद मादा पित्रादिदीभ्याढ्यैर्विवादं नाचरे गृही पञ्चपिण्डाननुधृत्य न स्नायात् परवारिषु स्नायान्नदी प्रश्रवणदेव हादह्रदेषु च वर्जयेत् पर सत्यादि न चाश्रीयादनापदि कदर्य बद्धचो वै राणां तथा चानं निकस्य वैणाभिशस्त वार्धुष्यगणिकागणदीक्षिणां चिकित्स आदुरक्रुद्धक्लीबरङ्गोपजीविनां क्रूरोग्रपदिदव्रात्यदाम्भिकोच्छिष्ट भोजिनाम् शास्त्रविक्रयिणश्चैव स्त्रीजितग्रामयाजिनां नृशंसराजरसगकृतघ्नवधजीविनां पशुना नृदिनोश्चैव सोमविक्रयिणस्तथा कन्तिनां स्वर्णकाराणामन्नमेषां कदाचन न भोक्तव्यं मृथा मांसं केश कीडसमन्वितं भक्तं पर्युषितेच्छिष्टं स्वस्पृष्टं परितोक्षितम् उदक्या स्पृष्टसङ्घुष्टमपर्याप्तं च वर्जयेद गोख्रादं शकुनोच्छिष्टं पादस्पृष्टचकामदः शूद्रेषु दासगोपाल कुलमित्रार्धसीरिणः भोज्यान्नो नापि तश्चैव यश्चात्मानं निवेदयेद् अन्नम् पर्युषिदम् भोज्यं स्नेहाकृदम् चिरसंभ्रस्थितम् चिरसंभृतं अस्नेहा अपि गोरसविक्रियाः औष्ट्रमैकशब्दं स्त्रीणां पयश्च परिवर्जयेद क्रव्यादपक्षिदात्यूहस्युकमांसानिवर्जयेद सारसैकसभान् हंसान् बलाककडिटिभान् पृथा कृसरसंयावपायसपूपश्कुलीः कुररं जालपादं च कञ्चरीटमृगद्विजान् चाश्रान् पादान् जग्ध्वा वै कामदो नरः बन्धुरं कामदो जग्ध्वा सोप वासस्त्रियः सम्भवेद पलाण्डुलशूनादीनि जग्ध्वा चान्द्रायणं चरेद श्राद्धे देवान् पितृन् प्रार्थ्य खादन् मांसं न दोषभाक वत्सेत्स नरकेखोरदिनानि पशुरोमदः संमितानि दुराचारो यो पन्द्यविधिना पशून् मांसं सन्त्यज्य सम्प्राप्य कामान्यादि तदो हरिम् इति श्रीगारूडे महापुराणे आचारकाण्डे याज्ञवल्क्यो कृतश्राद्धनिरूपणम् नाम षण्णवतितमोऽध्यायः ओम् अध्यायम् 97 सेवेन् याज्ञवल्क्य उवाच द्रव्यशुद्धिं प्रवक्ष्यामि तन्निबोधदसत्तमाः सौवर्णरचताम् जानाम् शङ्करज्ज्वादिचर्मणाम् पात्राणां चासनानां च वारिणा शुद्धिरिष्यदे उष्णवाभसृक्स्रुवयो धान्यादे प्रोक्षणेन च तत्क्षणाद्दारुशृङ्गादेर्यज्ञपात्रस्य मार्जनाद सोष्णैरुदगोमूत्रै शुद्ध्यत्या विककौशिकं वैक्ष्यम् योष्यन्मुखं पश्यन् पुनः पाकान्महीमयं गोघ्ना तेन्ने तथा केशमक्षिकाकीडदूषिते भस्मक्षेपद्विशुद्धि स्यात् भस्म्भिर्लोक चदा शुचिमेध्या मृत्त यैर्गंधलेपकर्षाद शुचि गोतृप्तिदम तोयं प्रकृतिस्थ मही गवचाडा लव्या रश्मिरग्नी रजच्छाया गौरश्वो वसुधानिलाः अश्वाजविप्रुषो मेध्यास्तथा च मनबिन्दवः स्नात्वा पीत्वा सुप्ते भुक्त्वा रद्या प्रसर्वणे आचान्द पुनराचा मे शुदे सुदे निष्ठिविदे स्वापि परिधाने श्रुपादने पञ्चस्वेदेशुना चामे दक्षिणं श्रवणं स्पृशेद दे, तिष्ठन्त्यग्न्यादयो देव विप्रकर्णे तु दक्षिणे यदि श्रीकारूणे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योकृतद्रव्यशुद्धिनिरूपणं नाम सप्त सप्तनवतितमोऽध्यायः ओम् अध्यायम् नैन्टि एय्ट् याज्ञवल्क्य उवाच अथदानि विद्धिं वक्ष्ये तन्मे शृणुत सुव्रताः अन्येभ्यो ब्राह्मणा श्रेष्ठास्तेभ्यश्चैव क्रियापराः ब्रह्मवेत्ता च तेभ्योऽपि पात्रम् विद्यात्तपोन्विदाम् भू गो भू धान्य हिरण्यादिपात्रे दातव्यमर्चितम् विद्यात्तपोभ्याम् हीनेन न तु ग्राह्यप्रतिग्रहः गृह्णन् प्रदातारमधो न यत्यात्मानमेव च दाधव्यं प्रत्यभं पात्रे निमित्तेषु विशेषदः याचितेनापि दातव्यं श्रद्धाभूतं तु शक्तिदः हेमशृङ्गीषभैरौप्य सुशीला वस्त्रसंयुता स कांस्य पात्रा दादव्या क्षीरिणी गौ सदक्षिणा दशसौवर्णिकम् शृङ्गम् शफम् सप्तफलैकृतम् पञ्चाशत्फलिकम् पात्रम् कांस्यम् वत्सस्य कीर्त्यते स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा अस्या रोगवर्जितम् दादा स्वर्गमवाप्नोति वत्सराण्मसंमितान् कपिला चेत्सार यदे सप्तमं कुलं यावद्वत्सस्य दौ पादौ योन्यां प्रदर्श्यदे तावद्भौ पृथिवी यावद्गर्भं या न यथा कथञ्चिद् दत्त्वा गां धेनुं वा धेनुमेव दादा स्वर्गे महीयते श्रान्तसंवाहनं रोगि परिचर्यासुदार्चनं पादशौचम् द्विजोच्छिष्टमार्जनं गोप्रदानवद द्विजाय यदभीष्टं तु दत्त्वा स्वर्गमवाप्नुयाद सर्पिर्दत्त्वा व्रजे गृहधान्यच्छत्र माल्य वृक्षयानकृतं जलम् शय्यानुलेपनम् दत्त्वा स्वर्गलोके महीयते ब्रह्मतादा ब्रह्मलोकं प्राप्नोति सुरदुर्लभं वेदार्थयत्नशास्त्राणि धर्मशास्त्राणि चैव हि मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयाद एतन्मूलं जगद्यस्मादसृजत्पूर्वमीश्वरः तस्मात् सर्वप्रयत्नेन कार्यो वेदार्थसङ्ग्रहः इतिहासपुराणं वा लिखित्वा यः प्रयच्छति ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणोन्नतिम् लोकायादं कुदर्कश्च प्राकृतं म्लेश्च भाषितं न श्रोतव्यं द्विजे नै दधो न यदितं द्विजं समर्थो यो न गृह्णीयाद्दृलोकानवाप्नुयाद कुशपयो गन्धा प्रत्याख्येयानवारि च अयाचिता ग्राह्यमपि दुष्कृतकर्मणः अन्यत्र कुलडाषण्डपतितेभ्यो द्विषस्तथा देवातिथ्यर्चनकृदे पितृतृप्त्यार्थमेव च सर्वदप्रदिगृह्णीयादात्मतृप्त्यर्थमेव च इति श्री गारूढे महापुराणे आचारकाण्डे याज्ञवल्क्योक्तदानधर्मनिरूपणम् नामाष्टनवतितमोऽध्यायः ओ गरुडपुराणम् आचारकाण्डम् अध्यायम् नैन्टी नैन् याज्ञवल्क्य उवाच अधश्राद्धविधिं वक्ष्ये सर्वपापप्रणाशनम् अमावास्याष्टका वृद्धिकृष्णपक्षायनद्वयम् द्रव्यम् ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसङ्क्रमः व्यतिपादो गजछायाग्रहणम् चन्द्रसूर्ययोः श्राद्धम् प्रतिरुजिश्चैव श्राद्धकाला प्रकीर्तिताः अग्नीय सर्वदेवे वेदविद्युवा वेदार्थविज्येष्ठ सा दौहित्र, शिष्य, अश्वशुरमातुलाः त्रिणाचिकेददौहित्रशिष्यसम्बन्धिबान्धवाः कर्मनिष्ठास्तपो निष्ठाः पञ्चाग्निब्रह्मचारिणः पितृमातृपराश्चैव ब्राह्मणा श्राद्धदेवताः रोगीहीनादिक्ताङ्गकाण त्वौ नर्भवस्तद्धा अवकीर्ण्यादयो ये च ये चा अवैष्णवाश्च ते सर्वे न श्राद्धार्हाः कदाचन निमन्त्रयेश्च पूर्वेद्युर्द्विजैर्भाव्यं च संयतैः आजान्तांश्चैव पूर्वाह्ने ह्यासनेषु पेषयेद युक्मान् देवे तथापित्रिये स्वप्रदेशेषु प्रागुदपित्रिये त्रिण्येकं चोभयोप्रधः मादामहानामप्येवं तन्त्रं वा वैश्वदेविकम् हस्तप्रक्षालनं दत्वा विष्टरार्थे कुशानभि आवाह्य तदनुज्ञातो विश्वदेवास इत्यर्चा य वैरन्नम् विगिर्याधभोजने स पवित्रके सन्नो देव्या पयः क्षिप्त्वा यवोऽसि दीयवांस्तथा गन्धोदके तथा दीपमाल्यदामः प्रदीपकम् अपसव्यम् तदकृत्वा वितृणाम प्रदक्षिणं द्विगुणांस्तु कुशान् दत्वा कुशन्दत्वेत्यर्चा पितॄन् आवाह्य तदनुज्ञादो जपे दायान् त्वार्क्यम् संस्रवांस्तेषाम् पात्रे कृत्वा विधानतः पितृभ्यस्तानमसीदिन्युब्जम् पात्रम् करोत्यधः अग्नौ करिष्य आदाय पृच्छत्यन्नम् कृप्लुतम् कुरुष्वेदि तथोक्तोऽसौ हुत्वाग्नौ पितृयज्ञवद हुतचेषम् प्रदद्याच्चभाजनेषु समाहिदः यथा लाभोपपन्नेषु रौप्येषु च विशेषतः दत्त्वा न पृथिवी पात्रमिति पात्राभिमन्त्रणम् कृत्वे दं विष्णुरित्येवम् द्विजाङ्गुष्टम् निवेशयद सव्याहृदिम् जगायत्रीं मधुवादेत्यर्चस्तथा जप्त्वा यथा सुखं वाच्यं गुञ्जीरं स्तेऽपि वाग्यथाः अन्नमिष्टं हविष्यं च दद्यदक्रोद्धनो त्वरः आदृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तद्धा अन्नमादाय तृप्तास्तशीर्षं चैवान्न मन्वहम् तदन्नम् विकिरे भूमौ दद्याच्चापः सकृत् सकृद सर्वमन्नमुपादाय सतिलम् दक्षिणामुखः उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवद मादामहानामप्यव्यम् ददाद्या चमनम् तदख स्वस्ति वाद्यं दत्वा च दक्षिणां शाक्रिया स्वधकारमुदाहरे द वाच्यदामिन्यनुज्ञादप्यदृभ्यश्च स्वधोच्यतां विप्रैरस्तु स्वधेत्युक्तो भूमौ सिञ्चे तदो जलम् प्रीयन्तामिति चाकैवं विश्वे देव्यं जलं ददद दादारो नोऽवरुदन्तां वेदा सन्धतिरेव च श्रद्धा च नो मा व्यगमद्वहुदेयं च नोऽस्त्विधि इत्युक्तोऽपि प्रिया वाच प्रणिपत्य विसर्जयेत् वाजे वाजे इति प्रीत्या पितृपात्रम् तदुत्थानम् कृत्वा विप्रान् विसर्जयेद प्रदक्षिणमनुव्रज भुञ्जेद पितृसेवितम् ब्रह्मचारीम् भवेत्ताम् दुरजनी भार्यया सह एवम् प्रदक्षिणम् कृत्वा वृद्धौ नान्दीमुखानपि यजेतदधिकर्म यजेतदधिकर्कन्धूमिश्रा पिण्डा यैव या, श्रुताः एकोतिष्ठं दैवहीनं एकान्नैकपवित्रकम् आवाहनाग्नौ करणरहितं त्वपसव्यवद उपतिष्ठदामित्यक्षय्यस्थाने विप्रान्विसर्जयेद दा। अभिरम्यदां प्रब्रूयाद्ब्रूयुस्तेभिरदा स्मः गन्धोदक गुर्यात् पात्र पात्रचतुष्टयम् अर्घ्यार्थं पितृपात्रे सुप्रेतपात्रं प्रसेचयेद येषाम्ना यदि द्वाभ्यां शेषं पूर्व वदाचरेद एतत्स पिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि अर्वाक्षपण्डीकरणम् यस्य संवत्सराद्भवेत् तस्याप्यन्नम् सोदकुम्भम् दद्यात् संवत्सरम् द्विजः पिण्डांश्च कोजविप्रेभ्यो दद्याध्नौ जलेऽपि वा हविश्यान्नेन वैमासं पायसेन दुवत्सरम् मात्स्यहरिणकौरभ्रशाघुनश्चागपार्षदैः ऐण रौरववाराह वा शाश मांसैर्यदाक्रमं मांसवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः दद्याद्वर्षात्रयोदश्यामकास्सु चनसंशयः प्रतिपत्प्रभृतिष्वेवम् कन्यादीश्राद्धदो लभेद सत्रेण निकदानां तु चतुर्दश्याम् प्रदीयदे स्वर्गम् ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तद्धा पुत्रश्रैष्ठ्यं सौभाग्यं समृद्धिं शुभं प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतिं तथाम् अरोगित्वं यशोवीदशोकदां परमां गतिं धनं विद्यां च वाक्सिद्धिं गुप्यं गोजाविकं तथा अश्वानायुश्च विधिवद्यश्राद्धं सम्प्रयच्छति कृत्तिकादिभरण्यन्तं सकामान् प्राप्नुयादि वत्राद्या प्रीणयन्त्येव नरं श्राद्धकृतं द्विजाः आयुप्रजाधनं विद्यां स्वर्गमोक्षसुखानि च प्रयच्छदीयथा राज्यं प्रीत्या नित्यं पितामहः यदि श्रीकारूडे महापुराणे आचारकाण्डे याज्ञवल्क्योक्तश्राद्धविधिनिरूपणं नाम नव नवनवतितमोऽध्यायः अध्यायम् हण्ड्रेड् याज्ञवल्क्य उवाच विनायकोपसृष्टस्य लक्षणानि निबोधत स्वप्ने भावदेत्यर्थम् जलम् मुण्डांश्च पश्यति विमना बिफलारम्भः संसदित्यनिमित्ततः राजा राज्यकुमारी च पदीं पुत्रं च गुरुणी नाप्नुया स्नापनं तस्य पुण्येऽग्निविधिपूर्वकं गौरसर्षपकल्केन साज्येनोत् सारि तस्य दून् सर्वौषधैर् सर्वगन्धैर्विलिप्तचिरिसस्तथा भद्रासनोपविष्टस्य स्वस्ति वाच्यन् द्विजान् शुभान् मृत्तिकामरोचनां गन्धान् गुग्गुलुं चाप्सु निहिक्षिपेद या आकृता कर एकवर्णैष्ठदुर्भिकलशायर्ह्रदाद कर्मण्या नुडुहेरकृते स्थाप्यं भद्रासने तदा सहस्राक्षम् शतधारमृषिभिपवनं स्मृतं तेन त्वामभिषिञ्जामि पावमान्यपुनन्तु ते भगं तु वरुणो राजा भगं सूर्यो बृहस्पतिः भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः यत्ते केशेषु दौर्भाग्यं सीमन्दे यच्च ललाडे कर्णयो रक्ष्णो ्नन्तु ते सदा स्नातस्य सार्षपन्तैलं स्नुवेणाौदुम्परेणतु जुहुयान्मूर्ध्नि कुश्यान् सव्येन परिगृह्य च मितश्च समितश्चैव तथा शालकटङ्कटौ कुष्माण्डो राजपुत्रश्च अन्ते स्वाहासमन्वितैः दद्याच्च दुष्पधे भूमौ कुशा नास्तिर्यसर्वशः कृता कृदांस्तण्डुलांश्च फललौदनमेव च पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि मूलकम् भूरिकापूपं तथैव तदै दधिपाय दधिपायसमन्नं च गुडपिष्टं समोदकम् एतान् सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः अम्बिकामुपतिष्ठेश्च दद्यादर्घ्यङ्कृताञ्जलिः दुर्वासर्ष दुर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः कृतस्वस्त्ययनम् चैव प्रार्थयेदम्पितां सदीम् रूपम् देहि यशो देहि भाग्यम् भगवति देहि मे पुत्रान् देहि श्रियम् देहि सर्वान् कामांश्च देहि मे ब्राह्मणान् भोजयेत्पश्चात् ुक्लवस्त्रानुलेपनैः वस्त्रयुग्मं गुरों तथा श्रेयकर्मफलं विन्द्या सूर्यार्चनरथस्तथा इति श्रीकारुडे महापुराणे आचारकाण्डे याज्ञवल्पो याज्ञवल्लोक्त गणपतिकूम नाम शतमोध्याय ओं